ीरटे साट्टकम् यथेचं यत्किञ्चित् प्रलपशिव नामापिति सकृत् यथा छन्दम् वित्तम् गतरशिवकार्येऽपि गणिका सदा स्वैरम् भ्राम्यक्षणमपि शिवे तिष्ठतदिदम् महादेवो जिह्वे यदिनोऽर्थ श्रीमत्साराख्यमुख्याः परशिव तन्वो मानुराद्यागमोक्ता विश्वेशाद्याः पुराणेष्वपि निगदिता कोडिश क्षेत्रभेदात् कस्तासाम् तारतम्यं कथयतु यदधी वस्तु भेदम् यथो ेवम् नान्यन्तु चेतो मम कनकसभा नायकादंशुपैति मुक्तिम् दिशासु यदि वा क्षणमास्व किञ्चित् वक्तव्यमस्मृतितवाणि कलोकरुण्या आनन्दताण्डव सदानुभवाद् विभिन्ना सा चेन्नटेशन कदापि मम प्रदेया उद्यन्त्वङ्गे झटिति पुलकस्य दिव्यकाय लोके तदर्शो नघि सुकृतिनो रुन्धते मीनचक्षुः बाष्पो गजाड्याण्णयनमचिरोत्कण्टितं मे तुरुणे नादः पादम् भजतु स कथं बालशीतांशुमौळे निजपदाम् भुजमागतम् माम् दूरादवेक्ष्य किमु मद्विजिगुप्समानः मन्दम् तदुक्षिपतिघाय दिवादयालुः मूर्धानमेव पलितुम् वद मे नटेशः पुण्यम् दिव्यमस्तिधिर्यम् पूर्वम् दया या कृता मुल्लङ्घित वा न साति पुरा क्रोधम् नृता वामयि यादौ तेन कापि सहजा सैव व्यवस्थामि मा मन्त्वा पुण्यकृतो भिनश्च सुतराम् सकलस्यापकर्षस्य चागम् सीमालोको भवति निखिल स्वावयो नराले एवम् तौल्यम् भजत इगमे नास्ति किञ्चित् त्वदर्थ्यम् याञ्चा पुंसाम् वा नाथ मूढः तदिह वरदया चेत् त्वाम् सभाना च किम् वा सकृतवनदि मात्रात् सुप्रसन्नो दयालो मम भवति हितम् यत् तद्विधेहि त्वमेव जटाः जुटस्वान्न दशम्बरस्य परास्तपुष्पायुधडम्बरस्य भवामदा साहरिदम्बरस्य